ब्राह्मण उवाच श्रुत्वा पुरोहितेनोक्तं पाञ्चालः प्रीतिमांस्तदा घोषयामास नगरे द्रौपद्यास्तु स्वयंवरं पुष्यमासे तु रोहिण्यां शुक्लपक्षेषु भे तिथौ दिवसैः पञ्चसप्तम्या भविष्यति स्वयंवरः देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः स्वयंवरं द्रष्टुकामा गच्छन्त्येव न तवपुत्रा पुत्रा महात्मानो दर्शनीया विशेषतः यदृच्छया तु पाञ्चाली गच्छेद्वा मध्यमं पतिं को हि जानाति लोकेषु प्रजापतिविधिं वरं तस्मात् सपुत्र गच्छेथा ब्राह्मण्यै यदि रोचते नित्यकालं सुभिक्षास्ते पञ्चालास्तु तपोधने यज्ञसेनस्तु राजासौ ब्रह्मण्यः सत्यसङ्गरः ब्रह्मण्या नागराश्चाथ ब्राह्मणाश्चाति प्रियाः नित्यकालं प्रदास्यन्ति आमन्त्रणमयाचितम् अहं च तत्र गच्छामि ममैभिः सह शिष्यकैः एकसार्था प्रयाता स्मो ब्राह्मण्यै यदि रोचते वैशम्पायन उवाच एतावदुक्त्वा वचनं ब्राह्मणो विररामः इति श्री महाभारते, महाभार आदिपर्व चैत्ररथपर्वण द्रौपदीसंभव षट्ट्यधिकमोध्याय